मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं नैन् धूम्रमहिमावर्णनं श्रीगणेशाय नमः सनकाद्यावोचुः कुरुक्षेत्रं महादेवधूम्रवर्णस्य सर्वदं माहात्म्यं क्षेत्रमुख्यस्य वदसन्तोषदायकं श्रीशिव उवाच ऐशान्ये हिमवत्प्रान्ते धूम्रवर्णस्य क्षेत्रकं विख्यातं तस्य माहात्म्यं वर्णितुं कः क्षमो भवेद सङ्क्षेपेण वदिष्यामि प्रणम्य गणनायकं माहात्म्यं क्षेत्रमुख्यस्य शृणुध्वं त्वेकचेदसः देवर्षिभिः प्रहर्षेण स्थाभिदो धूम्रवर्णकः शुण्डादण्डमुखश्रीमांश्चदुर्बाहुप्रधारकः त्रिनेत्रयेकदन्तश्च समन्विदः अहङ्कारो गणेशानम् भजदे तत्र नित्यशः वामे सिद्धिर्दक्षिणाङ्गे बुद्धिः सर्वप्रियङ्गरी पुरदो मूषकस्तस्य धूम्रवर्णस्य शोभनः दशयोजनविस्तारः क्षत्रस्य गणभस्य च चतुरस्त्रं च तत्क्षेत्रं सर्वसिद्धिप्रदायकम् पुरतो धूम्रवर्णस्य भक्ता मुद्गलमुख्यकाः शुकाद्यास्तं भजन्ते ते महर्षयः पृष्ठतः दा पार्श्वदास्तस्य प्रमोदा मोदकादयः आस्तशस्त्रा महाभागा सेवन्ते धूम्रवर्णकं वामाङ्गे मुख्यानि प्रयागादीनि मानदाः क्षेत्राणि मुख्यानि भजन्ते धूम्रवर्णकं दक्षिणाङ्गे मरे शानाः शम्भुविष्णुमुखाः सदा सगणाः सपरिवारा भजन्दे गणनायकम् शेषाद्या नागराजाश्च पर्वता हैममुख्यताः गन्धर्वास्तरणसिद्धवसवो मनवस्तथा आदित्या रुद्रकाद्याश्च विद्या धराक्षरादयः वसन्ति तत्र द्विरदाननम् यद्यच्छ्रेष्ठतमं लोके तत्तत्तत्रैव संस्थितं सेवार्थं धूम्रवर्णस्य भक्तिभावसमन्वितं तेषां स्थानादिकं विप्राक् कथितुं नैव शक्यते अपारत्वात् ततः मया परम् तत्र तीर्थं महासिद्धिदायकं वर्तते परं धूम्रवर्णस्य तत्रैव स्नानं करोति विघ्नवः तत्र सद्यश्च वाञ्छितं लभते नरः अंदे मोक्षं न सन्देहो यत्र कुत्र तत्र विष्णुमुखादेवा कश्यपाद्या महर्षयः नित्यं स्नानं प्रकुर्वन्ति प्रकृष्टेनान्तरात्मना अन्यक्षेत्रस्थानागाद्यास्तत्र स्नानं प्रकुर्वते जनाः क्षेत्रनिवासार्थं स्थितास्तेऽपि मुदान्विदाः शिवविष्णुमुखानां च तत्र तीर्थानि मानदाः स्थितानि स्नानमात्रेण तेषां पदप्रदानि च तत्र दर्शनमात्रेण धूम्रवर्णस्य वै सकृत ईप्सितं लभते सद्यो मानवो पुण्यवान् भवेद् यात्रामात्रेण तत्रैव धर्मार्थकाममोक्षकं लभते एकवारेण यत्र कुत्र गतोऽपि चेद् भाद्रशुक्लचतुर्भ्यां स स्थापितो धूम्रवर्णकः द्वेवर्षिभिश्च मध्याह्ने सा तिथिः परमामदा वार्षिकसुमहोत्साहस्तत्रैव क्रियते जनैः भाद्रशुक्लचतुर्भ्यां तु यात्रां कुर्वन्ति मानवाः परस्परम् प्रहृष्टास्ते बोधयन्ति गजाननं सरोमाञ्चा भवन्त्येव शङ्कराद्या महर्षयः गणेशभावसंयुक्ता यात्रार्थं हर्षसंयुताः तत्र गच्छन्ति चान्ये ये प्रहर्षिताः कृत्वा यात्रां पुनः सर्वे स्वस्वस्थानगदामुदा स्मरन्ति धूम्रवर्णं तं भक्तिभावसमन्विताः अन्ते स्वानन्दगात् सर्वे भवन्ते नात्र संशयः शैवाध्यात्क्रममार्गेण स्वानन्दस्ता भवन्ति तु क्षेत्रे मरणदो विप्रा स्वानन्दो लभ्यते जनैः यत्र कुत्र स्थिताश्चैव गाणपा ब्रह्मरूपकाः धूम्रवर्णस्य क्षेत्रस्य माहात्म्यं लेशदो मया कथितुं विस्तरेणवार्हदिको नैव वर्णितुम् गणेशानि च क्षेत्राणि ब्रह्मभूतमयानि तु यावन्ति ब्रह्म गोलेस्मिंस्तावन्ति मुनिसत्तमाः धर्मार्थकाममोक्षाणां क्षेत्राणि विविधानि च चा। चतुःपदमयान्येव ज्ञातव्यानि न संशयः पञ्चमं यत्पदं प्रोक्तं ब्रह्माकारं महर्षिभिः क्षेत्रं गणपतेर्विप्रा यत्र तत्र स्थितं किल इदं क्षेत्रस्य माहात्म्यं शृणु याद्यो नरोत्तमः श्रावयेत् प्रपठेद्वापि स सर्वार्थमवाप्नुयाद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्र वर्णचरिते धूम्र महिमा वर्णनं नाम ओम्